येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिन ये नमः येन धौतागिरः पुंसाम् विमलै शब्दवारिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिन ये नमः वाक्यकारम् वरविहीम् भाष्यकारम् पतञ्जलिम् पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं श्रीगुरु सूत्र सूत्रसहिता दृष्टि करपथस लिंग अहम प्रेशित किय पढ़ित पढ़ितयाव सूत्र यथासङ्ख्यमनुदेशसमानम् तदपि वयं दृष्टवन्तः यत्र कथम् आदेशः भवति तानि अपि च आद, आदेश आदेशयोः कथम् अत्र स्थितिः इति सामन संख्या एकार से अयकार से वाने आव अभी चर स्थे चर आदेश अभी वर्त है अन ये सूत्रेण यूत्रे स्था य्रमे उ सी आदेश अभी तस्मिन् क्रमे एव उक्ताः सन्ति इति सूत्रस्य अर्थः इदम् सूत्रम् परिभाषासूत्रम् इति वदामः आहत्य सम्पूर्णप्रक्रिया इयम् एतद् वयम् अधीतवन्तः धन्यवादः भूयोगः भू भूधातोः रूपसिद्धिः तद् वयम् पूर्वमेव पठितवन्तः तदी धादो रूपस्थि अतमस्ती अी धाधिगणीय धा अस्त्र शप विक प्रत्यय आगे तिंग प्रति प्रत्योजन क्षयती रूपम अं किं वर्त अत्यय सावधाक प्रत्यय अस् क्षी इगंतु अस्ंद अंग गुण कूत्रेण साधाको सूत्रेण तह अ सूत्रेण गुणकार्यम पश्चा युणकार्यम तदनिकार्यवसर अस्त अदिकार्यम अभी क्षयती रूप ल अत्र अग्रिमपुटे अपि उदाहरणद्वयमस्ति स्रु इति उगन्तधातुः अस्ति इगन्ता यदा वर्तते तद्वत् उगन्धमपि अस्ति उगन्तम् अपि इगन्तमेव यतोहि अत्र इक् प्रत्याहारे उकारः अपि अर्थयन्ति अद इति कारणात् श्रु इति इगन्तधातुः इति वदामः यण् इत्यत्र कीदृशधातुः येन इत्यत्र अनुबद्धलोपे सति इकारः एव अवशिष्यते इति कारणात् अयं धातुः अपि इ इति एव अस्ति तर्हि सार्वधातुकः आर्थधातुकयोः इति सूत्र सूत्रेण एव अत्रापि गुणकार्यं भवति गन्धस्य अङ्गस्य स्वस्य च इति अस्ति खलु अत्र स्वस्य इति भागः अस्ति अनेन इ इति सम्पूर्ण धातु यदस्ति तद् इगन्तमेव इक् एव केवलम् इक् इति वर्णस्य नास्ति इगन्तस्यापि अस्ति खलु अत्र इक् इति प्रत्याहारे अन्तर्भूतमस्ति इ इति धातु अतः अस्यापि गुणकार्यम् अनेन भवति इतः पूर्वम् केवलं सार्वधातुकप्रत्ययस्य प्रसङ्गः कृतः अधुना आर्थधातुकप्रसङ्गः आर्थधातुकप्रसङ्गः पश्यामः कः आर्थधातुकप्रत्ययः धातोः परः विषयः प्रत्ययः तिङ्ग् वा शित् वा नास्ति चेत् सः आर्थधातुकप्रत्ययः तर्हि कथं वा आर्थधातुकप्रत्ययस्य निर्णयं कर्तुं शक्यते इति चेत् यत्र पृडसङ्ख्या एकनिमिषं वदामि इदानीं 22. टु अत्र करतत्रं प्रेषितवती तत् प्रेषितवती ट्वेण्टि टु कः आर्थधातुकप्रत्ययः इति आगच्छति खलु तत्र ट्वेण्टि टु अस्ति तर्हि तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा इति पूर्वं पठितम् तर्हि ये प्रत्ययः तिङ् अपि नास्ति शित् अपि नास्ति तेषाम् आर्थधातुकम् इति संज्ञा धातोः परः विहिदः प्रत्ययः तिङ् वा चित् वा नास्ति सः प्रत्ययः आर्थधातुकप्रत्ययः कथं वा जानीमः सूत्रमस्ति आर्थधातुकम् शेषः तृतीय अध्यायस्य चतुर्थपादस्य चतुर्दश अधिक एकशततमसूत्रमस्ति आर्थधातुकम् शेषः इति सूत्रम् धादोः विहिदः तिङ् अथवा चित् भिन्नप्रत्ययः तिं चित् भिन्नप्रत्ययः आर्थधातुकसंज्ञकः भवति आर्थधातुकम् प्रथमान्तम् आर्थधातुकम् शेषः इति सूत्रे आर्थधातुकम् इति शब्दः प्रथमान्तमस्ति शेषः अपि प्रथमान्तमस्ति तर्हि कीदृशसूत्रम् इति चेत् आर्थधातुकसंज्ञा एव अनेन विधीयते संज्ञासूत्रम् द्विपदम् इदं सूत्रम् प्रत्ययः परश्च इत्येतेषाम् अधिकारः प्रत्ययः इति इत्यनेनचित् भिन्नप्रत्ययः इति अर्थः परश्च कुत्र विधीयते धादोः परे इत्युक्ते धादोः अनन्तरम् धादोः इति अपि अस्ति पञ्चम्यन्तम् अतः धातुतः प्रत्ययः विधीयते इति अर्थः अनुवर्तिसहितसूत्रमस्ति धादोः परश्च शेषः प्रत्ययः आर्थधातुकम् इत्युक्ते धातोः परे विधीयमानः प्रत्ययः तिङ्भिन्नः किन् अस्ति चेत् तादृशप्रत्ययस्य आर्थधातुकम् इति संज्ञा विकरणप्रत्ययेषु तनादिगणस्य विकरणप्रत्ययः तनादिभ्यः उः इति अस्ति खलु तनादिक्विङ्भ्यः उः इति सूत्रम् तर्हि उ इति प्रत्ययः तिङ् षित् अपि नास्ति अयम् प्रत्ययः आर्थधातुकप्रत्ययः इति वदामः तस्य संज्ञा आर्थधातुकसंज्ञा आर्थ गुणप्रसङ्गः आर्थधातुके प्रत्यये परे अङ्गादे स्थितस्य इकः गुणः भवति केन सूत्रेण इदानीम् आर्धधातुकप्रत्ययः पूर्वम् किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा यस्य वर्तते तेषाम् गुणकार्यम् कथम् भवति तादृशप्रत्ययः धातोः परे आगच्छते चेत् अत्र गुणकार्यं केन सूत्रेण भवति इति दृष्टं तत्र इदन्तस्य अङ्गस्य अथवा इक् इति अस्ति अस्ति चेदपि अत्र सार्वधातुक आर्थधातुकयोः इति सूत्रेण गुणकार्यं भवति इति उक्तम् तर्हि इदानीम् आर्थधातुकप्रत्ययस्य विषये चिन्तनम् अत्र केन सूत्रेण गुणकार्यं भवति इति चेत् सार्वधातुक आर्थधातुकयोः इति सूत्रेण एव यतोहि इगन्ध अङ्गस्य इकः गुणः भवति सार्वधातुके आर्थधातुके च प्रत्यये परे इति अस्ति सूत्रस्य विवरणं तर्हि अनुवर्तिसहितसूत्रम् इगन्धात् इगन्ध अङ्गस्य इकः गुणः सार्वधातुक आर्थधातुकयोः इति विधिसूत्रम् इदं तु विधिसूत्रम् <coughs> आर्थधातुकं चेष्टा इति संज्ञासूत्रम् दुक्विन् इति तनादिगणीयधातुः अस्ति करणे इति अर्थः लिट्लकारप्रथमपुरुष एकवचनस्य विवक्षायाम् अत्र कः प्रत्ययः विधीयते इति चेत् औत्सर्गिकतन शप विधीयते परन्तु शपम् प्रपाद्य अत्र उ इति प्रत्ययः आगच्छति केन सूत्रेण इति चेत् तनादिकृञ्भ्यः उः इति सूत्रमस्ति अनेन सूत्रेण उ इति प्रकरणप्रत्ययः अत्र आगच्छति तर्हि अनुबन्धलोपानन्तरं कृ इति एव अवशिष्यते कृ योगः उ योगः तिप् इत्यत्रापि अनुबन्धलोपानन्तरं एव अवशिष्यते तर्हि कृयोगः ऊयोगः स् इति स्थितिः अत्र ककारः ऋकारः ऋकारः गुणवर्णः इक् प्रत्याहारे अन्तर्भूतः अस्ति अतः अत्र गुण गुणकार्यं भवितुम् अर्हति ऊ इति अतेङ्गुणः इति गुणः गुणसंज्ञा खलु अत्र ऊ इति गुण गुणकार्यं गुणकार्यं प्रति अस्य प्रसक्तिः अस्ति अपि च अत्र वयं किं दृष्ट्वा अत्र इक् प्रत्याहारे यानि वर्णाः वर्तन्ते तेषां गुणकार्यं भवति इति अतः इक् इगन्तम् अस्ति धातुः ऋकारः अस्ति अत्र ऋकारस्य अनन्तरम् उकारः अस्ति ऋकारस्य गुणवर्णः आ इति अस्ति पश्चात् यत्र अकारः आगच्छति तदानी उरन्त्रवर्णः इत्यनेन परे आगच्छ दी। परे अत्याहारस्थ पूरेफा आगछति स्थ य ऋकारस्य षष्ट्यन्तरूपमस्ति अत्र उहु इति तदेव अत्र उरन् इत्यत्र उ इति दृश्यते अण्प्रत्याहार प्रत्याहारे यदि ऋकारः अस्ति चेत् अस्य परे यदा आकारः आगच्छति तदानीमेव रेफः अपि आगच्छति इति अर्थः तर्हि कर्व् इति भवति आ कृयोगः आयोगः ग योगः आर् इत्यत्र कर् इति भवति सुशिलभगिनी म्यूट् करो करोतु करोति इति अस्ति कर् योगः उकारस्य गुणः ओकारः अत्र पश्यतु प्रथमं ऋकारस्य अनन्तरम् ऊकारः अस्ति ऊकारः कीदृश अस्ति आर्थधातुकप्रत्ययः अस्ति तर्हि तिङ्क्षित् सार्वधातुकम् इत्यनेन अस्य प्रत्ययस्य सार्वधातुकसंज्ञा नास्ति तिङ्क्षित् भिन्नः अस्ति इति कारणात् आर्थधातुकसंज्ञा तादृश आर्थधातुकप्रत्ययः इगन्तस्य अङ्गस्य परे अस्ति इति कारणात् सार्वधातुक आर्थधातुकयोः गुणः इत्यनेन गुणकार्यं भवति आर्थधातुकः अस्ति इति कारणात् अतः निमित्तम् आर्थधातुकयोः इति भागः अस्ति खलु तदेव पश्चात् इदानीं तादृशगुणकार्यम् यदा जातं तर्हि कर् योगः उ इति अस्ति तदानीमपि धनि ति इति प्रत्ययः अस्ति तिङ् इति तिञ्चित् सार्वधातुकमित्यनेन अस्य सार्वधातुकसंज्ञा इदानीमपि अपि गुणकार्यस्य प्रसक्तिः अस्ति तर्हि ओकार उकारस्य गुणकार्यम् भूत्वा ओकारः भवति कर्योगः ओयोगः ति करोति इति रूपम् अत्रापि सार्वधातुक आर्थधातुकयोः इति सूत्रं कार्यं करोति इदानीं mm -hmm. कश्चन तत्र प्रत्ययः किल किम गुणादेशः आगच्छति वा उकारः अत्र प्रत्ययः किल तस्यापि आगच्छति वा किञ्चित् यतोहि इदानीम् अङ्कं किम् अस्ति करु इति अस्ति खलु इदानीं कीदृश अङ्कम् अस्ति इगन्धमस्ति वा अङ्कम् ई प्रत्ययस्य कृते करु इति अङ्कम् अत्र तादृशं न लिख्यतं परन्तु प्रश्नः उचितः अस्ति करु इति अङ्कं तद् इगन्धम् अङ्कमस्ति अवगतं वा अत्र प्रत्ययस्य इति न अङ्कम् इति वदति च इगन्धस्य अङ्कः अङ्गस्य गुणादेशः तर्हि करु इति अङ्गम् अङ्गस्य hmm. ति इति प्रत्ययः सार्वधातुकप्रत्ययः तर्हि गन्धस्य अङ्गस्य परे सार्वधातुकप्रत्ययः अस्ति गुणस्य कृते निमित्तं पूरितं hmm. खलु धन्यवाद hmm. समीचीनप्रश्नः सं, एव इदानीं कश्चन प्रश्नः उदेति धातोः परः प्रत्ययः सावधा आर्धा चतय ना इगंधा पर यको प्रत्यय होात गुण किधधाको इन सूत्रेण अतः कि पशा धा प्रत्यय द्विधा तद्वयं जानीमः सार्वधातुकप्रत्ययः वा आर्थधातुकप्रत्ययः वा इतोपि अन्यत् किमपि नास्ति ये प्रत्ययः किङ् अपि नास्ति ते सर्वे आर्थधातुकप्रत्ययाः इति सर्वेषाम् इगन्धधातूनां परः यः यः कोऽपि भवतु धातव गुणः भवति किल आम् भवति खलु इगन्धधातुः अस्ति चेत् परे यः कोऽपि प्रत्ययः भवतु तर्हि गुणकार्यं भवति यतो हि सूत्रमस्ति सार्वधातुक आर्थधातुकयोः यदि प्रत्ययः सार्वधातुकं वा भवतु आर्थधातुक वा भवतु तर्हि गुणकार्यं भवति इति सूत्रस्य अर्थः तर्हि अतः किमर्थं तादृशभेदः कृतः इत्युक्ते सार्वधातुकं वा आर्थधातुकं वा गुणकार्यं भवति चेत् किमर्थम् एतादृशसार्वधातुकम् आर्थधातुकम् इति भेदः करणीयः हा। प्रत्ययः अस्ति चेत् गुणकार्यं भवति इति वक्तुं शक्यते खलु अपि च इगन्धधातोः परः यदा यः कोऽपि विहितः तदा गुणः भवति इति पर्याप्तं किल इति प्रश्नः प्रश्नः अवगतः वा प्रश्नः अस्ति चेत् पृच्छतु आग, तर्हि व्यव व्यावहारिकरूपेण एतद् जानीमः सर्वेषु गणेषु इगन्धदातुः धातौ गुणः न भवति यथा तुदादिगणे दिवादिगणे अत्र अन्यत् चिन्तनं करणीयम् अस्य प्रश्नस्य उत्तरम् अन्य अग्रे वक्ष्यामः एतद् वयं पूर्वं पठितवन्तः यत्र तुदादिगणे अङ्कं कीदृशमस्ति तुणे गुणकार्यं न भवति यतोहि सा एवं वर्तते पित् अपित्वा गुणकार्यं न भवति दिवादिगणे श्यन्निदिव्यगरणप्रत्ययः अत्र या इति अवशिष्यते अत्रापि गुणकार्यम् अपित्वा गुणकार्यस्य बाधा इति पठितं तदेव अत्र उत्तरम् इगन्तम् इघन्तधातुः अस्ति चेदपि इगन्तमङ्कम् अस्ति चेदपि गणे दिवादिगणे तुदादिगणे गुणकार्यं न भवति भवति इति उक्तम् पुनः धादौ अङ्गे गुणः स्थलद्वये भवति धादोङ्गे गुणः स्थलद्वये भवति कुत्र कुत्र धातोः अन्धे स्थितस्य इकः स्थाने गुणः भवति अपि च धातोः अन्तिमवर्णात् पूर्वं स्थितस्य ह्रस्व इक् स्थाने गुणः भवति इत्युक्ते इगन्ध अङ्गमस्ति चेत् गुणकार्यं भवति इगोग अङ्गमस्ति चेदपि गुणकार्यं भवति यदा इठै इठ क्षम्यता इठम् इति अत्र अनुनासिक इकारः अस्ति खलु इठाम् आकारः अकारः इठाम् अकारः अस्ति अनुनासिक अकारः अस्ति अनुबन्धलोपानन्तरम् इ योगः टा योगः ति अकारस्य एव संज्ञा भवति अन्तिम आकारस्य अस्य एव गुणकार्यं भवति भुवादिगणीयधातुः अस्ति तर्हि अत्र शप्विकरणप्रत्ययः अनुबन्धलोपानन्तरम् अकारः आगच्छति इट् योगः आयोगः ति इति स्थितिः अत्र गुणकार्यं भवति खलो, इट् इत इत्यत्र उबधायाम् अस्ति इकारः टकारः एव अस्ति वर्तते अन्तिमा अर्णात् पूर्व विद्यमानस्य वर्णः वर्णस्य उभधा इति संज्ञा तर्हि अयम् इकारः उभधायामस्ति अतः इगुभधा इग धातुः अस्ति इट् इति अस्य गुणकार्यं भवति इकारस्य गुणवर्णः ए भवति एट् योगः आयोगः इति एटति इति रूपम् अत्र इगुबधा धातु अस्ति चेत् गुणकार्यं भवति इति उक्तम् अत्र बुधाम् इति अस्ति अत्रापि अत्रा बुत् एव वर्तते अकारस्य इत्संज्ञा भूत्वा लोभः भवति तर्हि बकारः उकारः धकारः इति अस्ति अत्रापि धकारोत्तरवर्ति यः उकारः वर्तते तस्य उबधा इति संज्ञा धनिम् उबधाय उकारः अस्ति अयम् उकारः ईक् अस्ति इति कृत्वा बुत् इति इगुबधा धातुः अस्ति इदानीम् बधायाम् इक् वर्णः अस्ति इति कारणात् अत्रापि गुणकार्यं भवति केन सूत्रेण इति चेत् पुगन्तलघुबधस्य च इति सूत्रेण अस्मिन् सूत्रे लघुबधा इति अस्ति तदेव निमित्तमत्र लघुबधा किञ्चित् सार्वधातुकम् इत्यस्य इत्यनेन अत्र अकारः कीदृशः इति चेत् सार्वधातुकसंज्ञकः तर्हि इदानीं पुगन्तलघुपदस्य च इति सूत्रे अपि सार्वधादुक आर्थधातुकयोः इत्यस्य अनुवृत्ति अस्ति तदेव अत्र अतः अत्र अपि गुणकार्यं भवति स्थलद्वयमपि उक्तम् चेदपि इग चेदपि गुणकार्यं भवति गृजाम् इत्यत्र कृकारः अस्ति कुबध्या अुणकार्यम होदा अस् अ उबध अस् अन गुणकार्यम होकार से रूप अेद वेद योग हस्ती स्थित सर्वे जान जानती है पश्चात् दकारोत्तरवर्ती यः तकारः अस्ति इति कृत्वा वेदयोगः इति कारणात् अत्र सन्धिकार्यम् चर्त्वम् भवति किमर्थम् इति चेत् पूर्वम् जस्त्वम् जस्प्रस्य आहारस्य दकारः अस्ति अतः किं भवति अस्य चर्त्वम् आदेशः भवति चर्वर्णः चेत् प्रथमस्तरे द्वितीयस्तरे विद्यमानः वर्णाः विद्यमानः परे, दे परे चे देवा विदमन वर्ण आगछति वेत्ती छने चरादेश अस्सी चेदवर्ण सेनादेश झलां झसि इत्यस्मात् सूत्रस्य अतः तत् न आवश्यकम् ऋण इति धातुः धातुः कीदृशः अस्ति चेत् नु इति वर्णस्य किं भवति नु इत्यत्र उकारस्य संज्ञा भूत्वा लोभः भवति न एव अवशिष्यते अत्र तर्हि ऋण् इत्यत्र ऋकारः नकारः अस्ति अत्र ऋकारः कीदृशवर्णः इति चेत् अत्रापि उद्बधा वर्णः अस्ति अयं ऋकारः तर्हि अस्य गुणकार्यं भवति किमर्थमिति चेत् उ इति आर्धधातुकप्रत्ययः परे अस्ति अस्य आर्थधातुकशेषः इत्यनेन आर्थधातुकसंज्ञा उगन्धलघोपदस्य च इति सूत्रेण गुणकार्यम् भवति अत्रापि सार्वधातुक आर्थधातुकयोः इति अनुवृत्ति अस्ति इति मया उक्तम् प्रत्यह अत्र निमित्तम् तर्हि ऋयोगः नायोगः उयोगः ति इति अस्य ऋकारस्य गुणादेशः भवति तर्हि उकारस्य ऋकारस्य आ इति आदेशः भवति गुणवर्णः आ इति यदा आदेश भवति तदानीम् अकारस्य अनन्तरं रेफः अपि आगच्छति उरन् चपरः इति सूत्रेण तर्हि अर्न् इति भवति अर् योगः ना इति अस्ति अर्न इति रूपं भवति अर्ना योगः उ योगः ति इति अस्ति अर्नो इति भवति वर्णमेलनं भूत्वा अर्नो इति भवति अर्नो योगः ति इति स्थित्या इदानीं सि इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तर्हि अर्णु इति अङ्कम् इगन्तम् अङ्कम् अस्ति इदानीम् गुणकार्यं भवति इति चेत् सार्वधातुक गुणः इत्यनेन एव गुणकार्यं भवति किमर्थम् इति चेत् इदानीं लघु उबधा वा पुन्तल उभधा वा अत्र नास्ति तत्र पुबन्तम् अथवा लघुपदम् अङ्गम् अस्ति चेदेव पुबन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति परन्तु अङ्गं तादृशं नास्ति इगन्तम् अङ्गमस्ति अर्णौ इति अतः सार्वधातुक अर्थधातुकयोः इति सूत्रेण गुणकार्यं भवति रूपं कीदृशं भवति अर्नोति इति रूपं भवति अत्र कैके अपि अस्ति चेत् पृच्छतु भगिनी अत्र अर्णयुक्तम् उल अर्ण इति अत्र अर्ण युक्तम् उ सत्यमेव सत्यमेव अत्र अध्वभागे रेखा अस्ति तद् न दृष्टवती धातोः अङ्गे अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य नाम उभधा उभधा इति एका संज्ञा अस्ति सूत्रम् पूर्वमेव अहम् उक्तवती धातोः अन्तिमवर्णात् पूर्वम् यः वर्णः अस्ति तस्य उबधा इति संज्ञा तर्हि तस्य संज्ञा सूत्रमस्ति सूत्रं किम् इति चेत् अलोन्त्यात् पूर्व उबधा प्रथमाध्यायस्य प्रथमपादस्य पञ्चषष्टितमसूत्रम् पदविच्छेदः अस्ति अलः अन्त्यात् पूर्वः उपधा वर्णसमुदायस्य यः अन्तिमवर्णः तस्मात् पूर्वस्य उपधा उपधा संज्ञा भवति अत्र अलः अन्त्यात् पूर्वम् उपधा इति सूत्रम् अलः इति पञ्चम्यन्त्यं पदम् अन्त्यात् इति पञ्चम्यन्तं पदम् पूर्वः प्रथमान्तं पदम् उभधा प्रथमान्तं पदम् अनेकपदमिद सूत्रम् सूत्रं स्वयं सम्पूर्णम् अन्त्यात् अलः पूर्व उभधा इदं सञ्ज्ञासूत्रम् अन्त्यात् अलः कियद्विलः इति चेत् अन्त्यात् इति अत्र वक्तव्यम् लघ्वी उपधा इदानीम् इतोपि एक अलौन्ध्यस्य इति अलौन्द्यात् पूर्वोपधा इति एका संज्ञासूत्रम् इदानीं लघुपधस्य पुबन्तस्य लघुपधस्य इति अस्ति खलु तर्हि लघुपधस्य इत्यस्य विवरणम् आवश्यकं लघ्वी उपधा यस्य तत् बहुव्रैः अस्ति तस्य लघुपधस्य लघ्वी इति लेखु इत्यस्य स्त्रीलिङ्गरूपम् लघु इत्युक्ते ह्रस्ववर्णः ह्रस्वः धर्मः स्वराणा एव कथम् जानीमः इति सूत्र सूत्रद्वयेन ऊकालो ह्रस्व ऊकालो ह्रस्वदीर्घक्लुधः इति एकसूत्रम् प्रथमाध्यायस्य द्वितीयपादस्य सप्तविंशतितमसूत्रम् ऊकालः अच् ह्रस्वः दीर्घः प्लुदः इति इदं संज्ञासूत्रम् ऊकालः इत्युक्ते किम् इति चेत् उकारस्य एकमात्रा कालम् ऊकारः अस्ति चेत् अस्य मात्रा द्वयम् आवश्यकम् ऊ इति ऊकारः ऊकारः ऊ इति अस्ति चेत् अत्र मात्रा त्रयम् आवश्यकम् तर्हि तदेव अत्र ऊकालः इति उक्तम् ऊकालः इव कालः यस्य सः सह ताद अच्छु क्रमश ह्रस्व दीर्घ प्लुद्रस्व कालशका सह दीर्घ कालश काल स्लुद्दिवार आगछति तदृश यहा यह स यही अ कालोस्व दीर्घ प्लुद्चारण चेत आच्वर्ण से ज्ञात ह्रस्व लघु ह्रस्वस्व स्वर लघुस वालाम चे ह्रस्व इंचा एक लघु इति संज्ञा भवति इदम् सञ्ज्ञासूत्रम् इत्युक्ते अकारः इकारः उकारः ऋकारः ऋकारः पञ्चेव वा, पञ्चवर्णाः एव लघु इति संज्ञया उच्यते उबधायां ह्रस्वयिक् गुणः केन सूत्रेण भवति सूत्रं उगन्धलघुबुधस्य च पुगन्धस्य अङ्गस्य लघुबुदस्य च इकः गुणः भवति सार्वधातुके अर्थधातु अर्थधातुके दात, च प्रत्यये परे पुग् अन्ते यस्य सः तत् पुगन्धं लघ्वी उबधा यस्य तद् लघुबधम् पुगन्ध लघुबधम् च तयोः पुगन्धलघूपधम् समाहारद्वन्द्वः एतद् ह्यस्तनवर्गे वयं पठितं पुगन्तलघुबधम् इति अस्ति न मुंसलिङ्गपदमस्ति अत्र पश्यतु तद् समाहारद्वन्द्वः इत्युक्ते पुगन्तं च लघुबधं च तयोः पुबन्धलघुबधयोः इति वक् भवति परन्तु पुबन्धलघुबधम् इति उक्तं तद् समाहारद्वन्द्वसमासः अस्ति तस्य पुबन्तलघुबधस्य इति अत्र पुनः षष्टीतत्पुरुषसमासः अपि आगच्छति पुगन्तलघूपदस्य षष्ट्यन्तम् पदम् चाव्येपदम् द्विपदम् इदम् सूत्रम् मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्ति सार्वधातुकार्थधातुकयो इत्यस्य पूर्ण अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्ति इत्यस्य परिभाषा इति परिभाषासूत्रेण इकः भवति यत्र स्थानी न उक्तम् इको गुणवृद्धि इति परिभाषासूत्रमस्ति परिभाषासू सूत्रम् किम् करोति इति चेत् यत्र नियमः न उक् उक्तः तत्र आगत्य नेमनं करोति अतः स्थानी न उक्तम् तर्हि स्थानी स्थाने रूपेण परिभाषासूत्रम् अनिमे अनियमे अनियमे नियमकारिणी इति परिभाषासूत्रम् इको गुणवृद्धि इति सूत्रस्य कार्यम् किं चेत् इकः स्थाने गुणादेशः वा वृद्ध्यादेशः वा भवतु इति अस्य सूत्रस्य कार्यम् तर्हि अस्मिन् सन्दर्भे किम् अस्ति इति चेत् इकः भवति अत्र स्थाने न उक्तम् अत्र गुणगुणादेशः एव विषयः अतः गुणादेशः कुत्र भवति इकह स्थाने इक स्थनेवण अनृत्तिसहित सूत्रमस्तंद अंग गुण साधा आर्था पुगन्ध लघुपद अंगस इकुरा साधा आर्था साधा आर्धाको यदि निमितीद कार्यम गुण अङ्गस्य इकः अङ्गस्य इक्वर्णस्य अङ्के विद्यमानस्य इक्वर्णस्य गुणः भवति तर्हि अयम् इक्वर्णः यत्र कुत्रापि अस्ति चेत् गुणः गुणकार्यं भवितुम् वा इति ज्ञातव्यं खलु पुहन्तलघुपदस्य इत्यनेन सूत्रेण गुणः अङ्कस्य उबधायां कारणद्व अङ्गस्य उधायां कारणद्वयेन भवति इति किम् इति पश्यामः लघूपधस अंग गुण साधाक आर्था पुगंद लगूपत चा उत्तर लघूपत चादाणमस्ंग इक गुण साधाकर्थधाको तदर्थम वह बुध धागम दृष्टव भूती कीदशमस्घूबध अंगमस्कार थकार उत्तर अर्ती तत्र वयं दृष्टवन्तः इदानीं पुबन्तस्य अङ्गस्य एकः गुणः सार्वधातुकार्धधातुकयोः पुबन्तस् पुबन्तस्य चर्चा अग्रे भविष्यति इदानीं केवलं लघुबुधस्य अङ्गम् अङ्गस्य विषयः अस्य चर्चा अग्रे भविष्यति इति उक्तम् इदानीं किं किमस्ति अत्र लघुबुधस्य अङ्गस्य विषयः पश्यामः तर्हि उबधायां लघुबधा शुच् इत्यत्र चकारोऽत्र वर्ति ऊ इति वर्णः लघु इगुबधा एव यतोहि अत्र शुच् इत्यत्र चकार अन्तिमवर्णः चकारः अस्ति पूर्वम् उकारः अस्ति इति कृत्वा अयम् उकारः कीदृशः इत्ये लघु इगु उबधा इति वदामः वदिष्यामः तर्हि शकारः योगः उकारस्य गुणः गुणकार्यं भूत्वा ओकारः जायते तर्हि शायोगः ओयोगः च योगः ति शोचति इति अपि पुगन्तलघुपदस्य च इति सूत्रेण कार्यं भवति अत्र अग्रे कृष् अत्र ऋकारस्य स्थाने आर्भवति कर्षति कुशाम् इत्यत्र उकारः अस्ति कुत्र अस्ति उबधायाम् अस्ति अस्य किं भवति उकारस्य गुणकार्यं भूत्वा ओकारः भवति पुगन्तलः उपदस्य च क्रोशति इति रूपम् क्षिणु इत्यत्र इदानीम् उ इति कीदृशवर्णः इति चेत् अत्र अननासिक उकारः अस्ति तर्हि क्षिणुयोगः तनादिगणीयधातुः अस्ति का का इति कारणात् किञ्चित् सार्वधातुकमित्यनेन अस्य सार्वधातुकसंज्ञा नास्ति परन्तु शेषः आर्तधातुकम् इति अस्ति खलु अनेन सूत्रेण आर्द्रधातुकसंज्ञा एव प्राप्नोति तर्हि क्षिण् इत्यत्र अनुबन्धलोपानन्तरं क्षिण् एव अस्ति क्षकारः इकारः नकारः उ इति तनादिगणीयविकरणप्रत्ययः अस्ति तनादिगणीयः नास्ति आतनादि तुदादिभ्यः तनादिक्यः उभू तु तनादिगणीय रादुः अस्ति तर्हि क्षिण् योगः उ योगः ति चिणु इति भवति किमर्थमिति चेत् अत्र चिण् इत्यत्र अन्तिम अन्तिम अकारचैतसंज्ञा भूत्वा लोभः जातः तर्हि अत्र चिन् एव अवस् अवशिष्यते नाकारः योगः उकारः चिणु इति अस्ति इदानीं चिणु इत्यत्र क्षम्यता क्षी इत्यत्र छकारः इकारः नकारः इति अस्ति खलु अत्र आदौ गुणकार्यम् भवति वा इति द्रष्टव्यम् तत् न दृष्टं नकारोत्तरभक्त्ययः उकारः अस्ति अयम् तु गुणवर्णः परन्तु अत्र पुगन्तलघुवदस्य छ इत्यस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यम् किमर्थमिति चेत् उ इति आर्थधातुकप्रत्ययः परे अस्ति अकन् अङ्गम् कुबध अङ्गमस्ति इति कारणात् अस्यापि गुणकार्यं भवति पुगुन्दरकूपधस्य च इति सूत्रेण तर्हि छिन् किं भवति छेण् इति भवति छेण् योगः उ योगः पि इति अस्ति तत्र छेण् इत्यत्र उकारः परे अस्ति इति कारणात् अस्य आर्थधातुकप्रति आत आर्थधातुकसंज्ञा तर्हि सार्वधातुक आर्थधातुकयोः न क्षेणयोगः उ इति अस्ति उभधायाम् एकवर्णः अस्ति तर्हि परे आर्थधातुकप्रत्ययः अस्ति क्षेणयोगः उ क्षेणु इति भवति अत्र गुणकार्यं भूत्वा किं भवति छे इत्यत्र छी इत्यत्र छे भवति छेणु इति भवति इदानीं छेणुयोगः ति इति अस्ति उकारः कीदृशः अस्ति उकारः आर्धधातुकप्रत्ययः छेणु इत्यत्र क्षम्यता तदेव ब्रह्म आसीत् छेणु इति अङ्गं ति प्रत्ययः इदानीं निमित्तमस्ति तर्हि सार्वधातुकार्थदादुपयोः इत्यनेन सार्वधातुकसंज्ञः सञ्ज्ञकः ति इति तिङ् प्रत्ययः परे अस्ति इति कारणात् क्षेणुयोगः उयोगः ति इति अस्ति उका क्षेणुयोगः छे, ति इति अस्ति अत्र चेणु इत्यत्र उकारः अस्ति खलु अत्यगुणकार्यं भूत्वा ओकारः भवति तर्हि क्षेणोति इति रूपम् क्षेणयोगः ऊ योगः ति इति अस्ति ऊकारस्य गुणकार्यं भवति ओकारः भवति क्षेणो योगः ति क्षेणोति इति अत्र कस्यापि सन्देहः अस्ति वा भगिनी इकारस्य ओकार भवति एकार क्षम्यता एकार भवति एकारस्य एकार भवति भवति षेन् षेन् प्लस् भवति ुण् अत्र नु इत्यत्र उकारस्य ओ भवति धन्यवादः भगिनि ध्वनि अस्ाया गुण से प्रसक्ति नास् कुतः इति पश्यामः कुत्र इति चेत् भवाति जीव् उपधायां गुणस्य प्रसक्तिः नास्ति कुत्र इति पश्यामः पुगन्द लघुपधस्य च इति सूत्रेण पुगन्दम् अङ्गम् अथवा लघु उपधा लघु इगुपधा अङ्गम् अस्ति चेत् गुणकार्यं भवति इति उक्तम् पुगन्तम् इत्यत्रापि पुक् अस्ति चेदपि अत्र कीदृशकार्यम् इति अग्रे गतपत्रे आयातति इदानीं किमुक्तम् उभधायां गुणस्य प्रसक्ति प्रसक्तिः नास्ति, नास्ति। तर्हि अत्र जीव् इत्यत्र उभधायाम् इक्वर्णः अस्ति खलु लट्लकारप्रथमपुरुषपुरुषस्य एकवचनस्य विवक्षायां जीवियोगः अगहा, शप् युगः तिप् इति अबंधलोपानरम जीव योग आयोग हिस्तिया जीवन ह्रस्वकार लघुपथमस्लु सूत्र किलघुपध से नास्ति अस्ति लघुपधन नुक तुण कार्यम अन सूत्रेण नवध गुणकार्य सूत्रे चे पुग्तुप से चा सूत्रेण अंक सिद्धता नास्ति यतोहि अत्रुबन्धमपि नास्ति लघुबधम् अपि नास्ति केवलं वर्णमेवनम् एव मूर् इत्यत्रापि ह्रस्व दीर्घः अस्ति तत्रापि गुणकार्यं न भवति एज्र् इत्यत्र पश्यामः चेत् इकु वर्णः एव नास्ति इत्यत्र ऋकारस्य किं भवति उपदेशे अर्चन इति इत्यनेन इत्संज्ञाभूत्वा लोपकार्यं भवति एज् इत्यत्र एच् इति आदिमवर्णः एकारः अस्ति तत्तु इक् प्रत्याहारेण अन्तर्भूतः अस्ति उपधायाम् इक् वर्णः अस्ति चेदेव गुणकार्यं भवति इदानीम् एज् अस्ति परन्तु एच् इति एच् प्रत्याहारे अस्ति इक् प्रत्याहारे अतः अत्र गुणकार्यं न भवति शुच्याम् इत्यत्र चकारः अस्ति उद्धाय चकारः तु इक् नास्ति अदन्तु हल् वर्णः अस्ति न अतः अत्रापि गुणकार्यं न भवति अत्र कस्यापि सन्देहः अस्ति चेत् पृच्छतु तर्हि पुगन्ध विषये पश्यामः पुगन्तम् अंगम इत्युक्ते किम् इति ज्ञातव्यं ह्रस्वम् इदानीं द्रष्टवन्तः दीर्घं यद् नास्ति तद ह्रस्वम् इति अपि ज्ञातुं ज्ञातुं शक्यते इदानीं पुगन्तस्य अङ्गस्य चिन्तनं पश्यामः पुगन्तम् इति किं पुक् अन्ते यच्छतः तत् पुगन्तम् तर्हि आगमः अस्मिन् कः अस्मिन् ककारः यत् कुत्र पुक् इत्यत्र अनन्तरं पु इति एव अवशिष्यते उकारः अपि यत्संज्ञकः पुक् इत्यत्र इत उकारः अनासिकः अस्ति वा उपदेश्य च अन्नासिक इत्यनेन अस्य इत्संज्ञा भवति अनन्तरम् उभयोः लोभः तस्य लोभः इत्यनेन भवति तर्हि पा एव अवशिष्यते अस्य पुक् आगमः इति उक्तं आगमः इति इत्युक्ते वर्णात् पूर्वं वा परं वा अन्यवर्णस्य उदयः तद् अलन्त अलन्तप्रकारस्य इत्सज्ञा भवति खलु आं तत्र लिखितम् अस्ति खलु करवत्र पश्यतु तत्र न न उकारस्य इति उक्तम् उकारः अस्ति खलु ककारस्य न उकारस्य उकारः हा उकारः अनुनासिकः वा इति मम चिन्तनम् आसीत् ककारः हलन्तीम् इत्यनेन आगमः इत्युक्ते किं पूर्वं वा परं वा नूतनवर्णस्य उदयः पुक् आगमः इति उक्तं पुक् आगमः तत् कीदृश आगमः इति चेत् पूर्वं वा परं वा इति उक्तं तर्हि पूर्वं वा परं वा इति कथं वा वयं शक्यते इति अत्र तदर्थमपि सूत्राणि वर्तते इदानीम् अत्र किम् उक्तम् पुक् कित् अस्ति यतोहि अत्र ककारस्य उत्संज्ञा अतः अयम किस्म ककार कि संज्ञक यहा सर आगछति तह स्क्रष्टवरे कि आगम कि अस्त चे अरे दाधातुः आकारान्तधातुः दा अस्ति तस्य पुकागमः भवति निष्प्रत्यये परे तदर्थं वयम् एकं सूत्रं पठितवन्तः खलु अति ह्रिये उली इति बृहत् सूत्रम् अति ह्री व्लीष्माय् म्यूट् करोतु भगिनि अर्ति ह्री व्लीष्मा यातां पुनौ इति सूत्रम् अर्ति ह्री व्ली क्ष्मा यातां पुङ् नौ इति सूत्रमासीत् तद् करपत्रे वर्तते तद्वयं पठितवन्तः पठितमेव पूर्वमेव पठितवन्तः खलु अत्र दा इति धातुः अस्ति सूत्रे क्युत्र आ इति अस्ति चेत् या ताम् इति अस्ति खलु तत्र आताम् इति तर्हि तादृश आत्वम् कुत्र वर्तते आकारा आकारान्तदादवः दा तेषामपि इदानीं दाधातुः आकारान्तधातुः दा अस्ति अस्य निच् प्रत्ययपरे गुणकार्यं भवति प्रत्ययपरे पुक् आगमः भवति अनेन सूत्रेण तर्हि दाधादोः दा दा पर परे आगमः भवति तर्हि दायोगः पुक् इति अस्ति तत्र अनुकन्धकापानन्तरं पा एव अवशिष्यते इति उक्तं दाप् इति भवति इति अनुबन्धलोभानन्तरम् इकारह एव अवशिष्यते तर्हि दाप् योगः इ पूर्वं किं करणीयमिति चेत् निच् प्रत्ययः योजनीयः सोपानस्य मुख्यत्वं वर्तते इति कृत्वा दायोगः निच् इति स्थिति पश्चात् अनुबन्धलोभानन्तरं दायोगः इ इति लेखनीयम् पश्चात् एव अत्र इकारः परे अस्ति एव दकारोत्रवर्ति कुकागमः भवति आगमः अस्ति इति कारणात् प्रत्ययस्य पूर्वं वा भवतु स्थान्यः पूर्वं वा परे वा इति नियमः खलु स्थान्यः अन्ते भवति इति करपत्रे उक्तमस्ति तर्हि स्थान्यः स्थानि दास्ति दकारस्य अनन्तरं परे आगमः भवति दापी इति आदिदेशिकधातुः अस्ति आदि अङ्गमस्ति दापी इति अङ्क सनाद्यन्तधातुवः धातवः इत्यनेन अस्य धातुसंज्ञा अपि वर्तते दापी इति इदानीं चुरा चुरारिगणीयधातुः अस्ति यतोहि अत्र निच् प्रत्ययः योजितं खलु तर्हि सनादिप्रत्ययः अस्ति अतः अत्र सनन्दधातुः अस्ति दापी योगः आयोगः ति इति स्थितिः तर्हि इकारस्य अनन्तरम् अकारः कीदृशप्रत्ययः इति चेत् इदानीम् अयं प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तर्हि दापी योगः आ योगः ति इत्यत्र दापी इति इगन्तम् अङ्कमस्ति तर्हि सार्वधातुक आर्धधातुकयोः गुणः इत्यनेन गुणकार्यं भवति किमर्थम् इति चेत् दापि इति इगन्धमङ्कमस्ति परे सार्वधातुकप्रत्ययः अस्ति चुरादिगुणीयधातुको अस्ति इति कारणात् अत्र वि, शपेदविकरणप्रत्ययः अनुबन्धलोपानन्दनम् अकारः एव अवशिष्यते दापि इत्यत्र इकारस्य गुणकार्यं भवति एकारः भवति दापे योगः आयोगः इति अस्ति एकारः यच् वर्ण प्रत्याहारे अस्ति अकारः हा अच् प्रत्याहारे अस्ति इदानीं संस्कारस्य निमित्तमस्ति अचोयवायवः इत्यनेन अयादेशः भवति दापयति इति सिद्धरूपम् किमर्थम् एतदुक्तम् इति चेत् अत्र पुक् आगमः कथं भवति इति ज्ञानार्थम् एतत् मुख्यमस्ति अत्र सोपानानि कथम् इति लिखित्वा स्थापयतु पुगाकमस्थान्य अन्ते परे आयास्यति इति केन सूत्रेण जानीमः सूत्रमस्ति आद्यन्तौ टकितौ अयं सूत्रं कुत्र अस्ति इति चेत् परिभाषासूत्रमस्ति प्रथमाध्यायस्य प्रथमपादस्य षट्चत्वारिंशत् सूत्रमस्ति आद्यन्तौ टकितौ आदि अन्तौ टक् तकितौ ककार इतौ त्गम स्थानन आदौ आगछति कि आगम स्थान अंदे आगछति सूत्र त्कार इत् सह कि ककार इत सदम पिभाषा सूत्रागम कूत्रे अर्ति ह्री व्लि रि नूष्माय पुङ्नौ ऋकारः अर्ति इत्यत्र ऋकारः एव अर्ति इति उक्तम् अत्र तिङन्तरूपमेव अर्ति इति उक्तम् ह्री व्लि रि नूष्माय् एभ्यः धातुभ्यः अपि च आकारान्तदातुभ्यः पुगागमः भवति निष्प्रत्ययपरे यशान् धाधूना कुकाकमः नौ नि इत्यस्य सप्तमे अन्तमस्ति नौ इति तस्मिन् परे इति वक्तव्यं खलु तदर्थं नि इत्युक्ते निष्प्रत्ययः निष्प्रत्यये परे इत्यर्थः आद्यन्तौ टगितौ इत्यनेन धातोः परम् आयाति अयम् कुपाकः आद्यन्तौ टगितौ इति परिभाषासूत्रेण स्थानि यत्र न उक्तं तत्र इदानीम् इदानीम् इदानी आदेशः कुत्र भवति आगमः कुत्र भवति इति न उक्तं खलु केवलम् आगमः भवति इति उक्तम् अस्य स्थानं किम् इति न उक्तं तत्र आद्यन्तं तदौ इति सूत्रम् आगत्य वदति अयम् आदेश आदेशः स्थान्यः परे भवति इति अतः धातोः परे आयाति अयं आया पुपागमः पुक् इत्यस्मिन् ककारः उकारः पा एव जनयो उत्सा भूप्वागव अवशिष्य अर्ति व्यीश आच तेषाइरदूद अर्तिमा अत्र द्वन्द्वसमा पदम् इति उक्तम् अन्ते श्रीष्मा याताम् इति षष्ट्यन्तं पदमस्ति पुक् प्रथमान्तं पदमस्ति नौ सप्तम्यन्तं पदमस्ति त्रिपदपदं सूत्रम् सप्तम् त्रिपदम् इदं सूत्रम् अङ्कस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रम् कीदृशमस्ति अर्तिह्रीलीरिवौ रिूक्ष्मा याताम् अङ्गानां नौ अङ्कस्य इति अधिकारः अस्ति अतः अर्तिह्रीलीरिूच्मा याता एतेषां विशिष्टधातूना यदे अङ्ग यदा अङ्गरूपेण आगच्छति तदा निष्कृत्ये परे अङ्गस्य उकागमः भवति इति विध विधिसूत्रमस्ति देण कस्यापि सन्देहः अस्ति चेत् पृच्छतु नास्ति चेत् पुगन्देषु अङ्गेषु गुणस्य चिन्तनं कुर्मः इदानीं पुकन्ताङ्गं कुत्र कुत्र वर्तते इति उक्तम् ऋकारा ऋ इति धातुः ह्री व्लीष्वाय् अपि च आकारान्तदीर्घ आकारः अस्ति तादृशधातूनाम् आकारान्तधातूनाम् च पुकागमः भवति निष्प्रत्ययपरे एव इति स्मर्तव्यम् निष्प्रत्ययः धातोः परे प्रेरणार्थे स्वाते च भवति आदौ प्रेरणार्थे निष्प्रत्ययेन गुणस्य चिन्तनं कुर्मः ऋयोगः मुवादिगणीयगतिप्रापणयोः इति धातुः निष्प्रत्ययः भवति यत्र स्वप्रेरणार्थे भवति सर्वेषु धातुषु तादृशरूपं भवितुम् अर्हति अत्र गणचिन्तनम् किमपि नास्ति अतः ऋ इति भुवादिगणीयधातुः अस्ति ऋकारः योगः इकारः इति इ इति निष् प्रत्ययः प्रत्ययस्य निधनुबद्धरूपम् अस्ति ऋ योगः इदानीम् अत्र किं भवति पु... पुगागमः भवति सूत्रम् अर्थे हृरिु इक्ष्मा याताम् पुङ् नौ इति पुगागमः भवति यदा पुग्गागमः भवति इति चेत् ऋकारः योगः पकारः योगः इकारः इति ऋप् इति भवति वर्णमेलनं भूत्वा रुप् इति कीदृशम् अङ्गम् इति चेत् पकारः अन्तिमवर्णः अस्ति इति कारणात् पूर्वविद्यमानः वर्णः उबधा इति वदामः ऋ इति वदामः ऋकारः उबधायामस्ति तस् अपि च अत्र इ इति प्रत्ययः कीदृशप्रत्ययः इति चेत् निच्प्रत्ययः अस्ति अयं तु तिङ् अपि नास्ति शित् अपि नास्ति तर्हि आर्थधातुकप्रत्ययः अस्ति निच्प्रत्ययः इ इति निच्प्रत्ययः अस्ति तर्हि इदानीं निमित्तमस्ति आर्थधातुकप्रत्ययः निमित्तमस्ति उपधायाम् इकवर्णः अस्ति इति कारणात् गुणकार्यस्य प्रसक्तिः इदानीं बुधायाम् इकवर्णः अस्ति चेदपि अत्र केन सूत्रेण गुणकार्यं भवति यत् पुगन्तस्य पुगन्तलघुबुधस्य च इति सूत्रेण तर्हि अत्र ऋकारः बुधायाम् अस्ति अत्र न ऋ एव दातुः क्षम्यता दा। अधः इक इक एव धातुः तर्हि इकवर्णः स्वयं धातुः अस्ति इकप्रत्ययहारस्तवर्णः तर्हि पुगन्तलघुपदस्य च इति सूत्रम् कथं कार्यं करोति इति चेत् अत्र पुकन्दम् अस्ति खलु पुक् आगमः यदा भवति तदानीं रुक् इति पुगन्तम् अस्ति अंगस्य अनेन सूत्रेण गुणकार्यं भवति पुगन्तलघुपदस्य च इति सूत्रेण अत्र निमित्तमस्ति आर्थधातुकप्रत्ययः परे अस्ति इदानीं ऋकारस्य गुणकार्यं भवति यतोहि अत्र इ इति ऋक्योगः इ इति स्थित्याम् आर्ताप्रत्ययः अस्ति इकारः इति ऋकारस्य गुणकार्यं भवति आ भवति ऋकारस्य स्थाने तदानीम् उरन्द्रपरः इत्यनेन रेफः अपि भवति अर्पि इति रूपं सिद्ध्यति अत्र कस्यापि प्रश्नः अस्ति चेत् सोपानः अत्र लिखितमस्ति आदिदेशिक अर्पि इति आदिदेशिकधातुः अस्ति लट्लकारप्रथमनुषेकवचनस्य विवक्षायां प्रथमं किं करणीयं करणीयम् इति चेत् अर्पियोगः शप् योगः तिप् इति इदानीम् अर्पि इति नूतनधातुः अस्ति अस्य अर्पियोगः आयोगः अर्पियोगः अर्पे योगः अत्र गुणकार्यस्य विगरणकृत्यः तर्हि अर्पे इति भवति पश्चात् अर्पया इति भवति तदेव अर्पयति इति रूपम् अत्र कस्यापि सन्देहः अस्ति चेत् पृच्छतु भगिनी अत्र ऋकारः इगन्तम् इक् इकः एव स्वयं इगन्तं नास्ति इक् स्वयम् इक् स्वयं परं परन्तु प्रथमं पुग आगमः आगच्छति तदनन्तरमेव गुणः आगच्छति अत्र तदेव पुनः उक्तवती खलु उकारस्य अनन्तरम् इकारः अस्ति परन्तु अत्र पुगन्तम् अङ्गस्य कृते अस्ति खलु धातुः अतः अत्र साक्षात् न सार्वधातुः कार्यं न कर्तुं शक्यते <Gülüşmeler> दादव <वा नपो> नास्ति भगिनि प्रथमं कारः अपि इकह एव परन्तु प्रथमं पुगागमह आगच्छति तत् आतौ निच्प्रत्ययः अस्ति खलु निष्प्रत्ययः प्रत्ययःतु भगिनी अग्नि ह्रीं श्वा या पुौ इति सूत्रेण किं भवति नौ, कि नौ प्रत्ययः परे अस्ति चेत् पूगाकं हास्ति इति एव खलु नियमः इदानीं अनन्तरमेव अर्धधातु आदौ किं करणीयम् अत्र निस् अस्ति खलु धातुः प्रेरणार्थे करणीयम् इति अस्माकं विवक्षा अस्ति अस्ति तर्हि किं करणीयं धातुतः प्रयरणार्थकप्रत्ययः कः इति चिन्तयित्वा योजनीयम् तदेव अत्र धातुतः निच् योजनं निश्च यदा योजयति तदानीम् अस्य प्रसक्तिः आगच्छति अस्ति ह्रीउलि इति सूत्रस्य तर्हि तदेव द्वितीयसोपानं तदानीमेव पुकाकमः भवति इदानीं पुगन्तम् इति अङ्गमस्ति ह्री इति धातुः जुहोत्यादिगणीयधातुः अस्ति लज्जायां प्रयरणार्थेण यत्तु भुवादिगणे आसीत् हृ इति धातुः ह्री इति जुहोत्यादिगणे अस्ति अत्रापि यदा प्रेरणार्थेण् स्मृतेः योजयामः चेत् ह्रीयोगः ई इति स्थिति तस्यां ता, स्थित्यां पुगाकमस्य प्रसक्तिः हि ह्री अस्मिन् सूत्रे अन्तर्भूतमस्ति खलु अर्थे ह्री ह्री इति शब्दः शब्दरूपः अस्ति तदेव उक्तं ह्रीयोगः पा पूकागमस्य अनुबन्धलोपानन्तरं पा एव अवशिष्यते हृ ह्रीयोगः पा योगः इ इति अस्ति तर्हि ह्री योगः पा योगः इ इति अस्ति ह्रीयोगः ह्रीयुगः प इत्यत्र ह्रीप् इति भवति इदानीं ह्रीप् इति युगुपधा पुगन्दधातुः अस्ति क्षम्यता पुगन्तधातुः अस्ति स्रीप् यतोहि स्रीप् इत्यत्र अन्तिमवर्णः पकारः अस्ति अयं पुगागमः अस्ति अतः इयं धातुः पुगन्त उगन्तः भवति परन्तु अत्र दीर्घईकारः अस्ति किल भगिनी आ, हा तदानीमपि गुणकार्यं भवति यतोहि अत्र इदानीं निमित्तं किम् अस्ति पुगन्तः न तु ईकारस्य विषये चिन्तनं नास्ति किं भवेत् इक इक प्रत्याहारस्तवर्णः भवेत् तावदेव तर्हि इदानीं किं भगिनी अत्र निमित्तद्वयम् अत्र सूत्रे निमित्तद्वयमस्ति खलु उबन्धं वा भवतु लघुबधं वा भवतु उभयमपि स्थाने अस्ति खलु उबन्धस्य लघुवधस्य अस्ति उबन्धमस्ति चेदपि भवतु लघुबधमस्ति चेदपि उभयत्रापि अत्र परन्तु इक् प्रत्याहारः इकः हा स्थाने एव भवति खलु गुणः भवति अतः इकः स्थाने इति इकारः अस्ति एव अत्र यदि तर्हि ह्रेप् इति भवति ह्रेप् योगः इ ह्रेपि इति भवति इदानीं ह्रेपि इति आदिदेशिकधातुः अस्ति ह्रेपि योगः म्यूट् करोतु अत्र युहोत्यादि गणे अस्ति चेत् डिस्वं न भवति वा पश्यामः इदानीं पश्यामः म्यूट् करोतु पश्यामः जुहोत्यादिगणे अस्ति इदानीं ह्रेपि योगः शप् योगः तिप् इति अस्ति ह्रेपि इति रूपपर्यन्तं निछन्तचिन्तनमेव निष् क्रमे कीदृशं वर्तते इत्येव चिन्तनीयं पश्चात् एव गणचिन्तनम् आगच्छति यतो हि निष्प्रत्ययः आर्थधातुकप्रत्ययः आर्थधातुकप्रत्ययपरे गणचिन्तनं किमपि नास्ति तदानीं शप् विकरणप्रत्ययः आगच्छति तदानीमेव विकरणप्रत्ययस्य विषये चिन्तनम् तहप योग है शोक ती अे अस्तु अगर आयोग ती अस््रेपे योग आयोग अस्ेयती आदिदेशिका अस् तर्हि अत्र कीदृशचिन्तनम् आसीत् इति चेत् तत्र चुरादिगणय कीदृशकार्यं भवति इति एत एव चिन्तितं खलु यतोहि आर्थधातुकप्रकरणे गणचिन्तनं नास्ति परन्तु द्वितीयप्रक्रिया यत्र आगतं तदानीं चुरादिगणीयधातौ कीदृशकार्यं भवति तदेव चिन्तितं न तु दुहोत्यादिगणविषये अवगतं वा यतो हि प्रेरणार्थे वयं कृतं न तु वयं निर्मितः खलु इदानीं ह्रेपि इति धातुः तद् औपदेशिक नास्ति उपदेशावस्थायां ह्री एव आसीत् यत्तु वयं निर्मितः खलु अधः तद् आदिदेशिकम् पुबंद से लघुबदा अंगाना प्रसंगे उबधायां इकवर्ण दीर्घ चेद गुण अंव अंगं पुबंद नीति प्रसंगे उब्धायां इकवर्ण लघु ह्रस्व चेदव्य अंश इदानीं स्वार्थे णिच् कथं भवति गुणस्य अत्रापि गुणस्य चिन्तनं करणीयं खलु यतोहि स्वार्थे णिच् अस्ति चेत् केवलं चुरादिगणीयविषये एव चिन्तनम् अत्र पुक्कागमः किमपि नास्ति तर्हि छुर् इति धातुः चुरादिगणीयस्य धातुः अस्य छुर् इत्यादयः इति अस्ति खलु छुर् चुरा, तदेव चुरादि इति जातं चुर् उपधायाम् उकारः अस्ति अयम् उकारः इक् प्रत्याहारस्थवर्णः अस्ति अस्य स्थाने गुणादेशः भवति कारणमस्ति आर्थधातुकप्रत्ययः परे अस्ति इति कारणात् चुरि इत्युक्ते चोर्योगः चोरी इति आदिदेशिकधातुः अस्ति चोरी इदानीं कस्मिन् गणे अस्ति अयं धातुः इति चेत् चुरादिगणे अस्ति इति कारणात् अत्रापि शक् विकरणप्रत्ययः आगच्छति चोरी युगः शक् युगः अस्ति अनुबन्धलोभानन्दनम् अकारः एव अस्ति तर्हि गुणकार्यं चोरी इति इगन्धधातुः अस्ति चोरी इत्यत्र इकारः अन्तिमवर्णः अयम् इक् प्रत्याहारस्थवर्णः अस्ति इति कारणात् गुणादेशः गुणं प्रति अस्य स्थानित्वं भवति इको गुणवृद्धिः इत्यनेन तर्हि इकः स्थाने भवति तर्हि इदानीं गुणकार्यं किं भवति चोरीयोगः आयोगः ति इत्यत्र चोरे इति भवति एकारः परे अस्ति एकारः अचुवर्णः अस्ति अकारः एकारः येचुवर्णः अस्ति अकारः अचुवर्णः अस्ति यचोरवायावः इति सूत्रस्य प्रसक्तिः अस्ति तर्हि चोरया इति भवति रूपं चोरया योगः चोरयुगः आयोगः अति चोरयति इति सिद्धरूप स्मिष्ठाम् इत्यत्रापि स्मिष्ठा स्मा इति अस्ति परे इकारः अस्ति स्मे इति भवति स्मेटी इति भवति स्मता स्मितां शकारः नास्ति स्मिताम् स्मेटि स्मेटि अयति स्मेत्यति इति आदिदेशिकधातुः इति अस्ति स्मिति इत्यस्य रूपं स्मितां अनादरे बुकाम् इत्यत्रापि उकारः बुक्मिष्ट अत्रापि बुक् बोक् भवति न भवति खलु ककारः एव अत्र उपधायम् इकवर्णः नास्ति इकवर्णः नास्ति चेत् अत्र पुगुन्दलगुरुदस्य च इति सूत्रस्य प्रसक्तिः तर्हि गुणकार्यं न सम्भवति तर्हि बुक् योगः का इ बुक् तत् ककारद्वयं वर्तते बुक् योगः इ बुक् इ इति रोगं भवति पश्चात् चुरादिगणस्य विकरणप्रत्ययः अत्र क अग्रे पश्यामः बुक् योगः अत्र बुक्कि इति अस्ति खलु बुक् इति नास्ति बुक्कि योगः शप् योगः तिप् अत्र शप् इत्यत्र अकारः एव अवशिष्यते बुक्कि इत्यत्र बुक्कि युगः आयोगः ति इति अस्ति तत्र अकारः इदानीं सार्वधातुकप्रत्ययः अस्ति बुक्कि इति इति कारणात् इगन्धस्य अङ्कस्य गुणादेशः बुक्के इति भवति बुक्के युगः आयोगः ति इत्यस्यां स्थित्या इदानीं सन्धिकार्यस्य प्रसक्तिः अस्ति अजोयवायवः इत्यनेन अयादेशः भवति बुक्कयापि बुक्कयति इति रूपं भवति इदानीं चुरादिगणे इगन्धधातूनां प्रसङ्गः तत् अत्र अपि एवमेव कार्यं परन्तु अत्र विग्रहप्रत्ययः एव एवम् मा चिन्तयतु फू इत्यत्र ऊकारः अस्ति अतः अत्र कीदृशकार्यम् इति चेत् ऊकारः औ भवति यतोहि ह्रस्वर्णः नास्ति तर्हि वृद्धिः एव भवति न तु गुणकार्यम् केन सूत्रेण अजोयनीति इति सूत्रेण ऊकारस्य स्थाने औकारः भवति इत्युक्ते सार्वधातुक अर्थधातुकयोः गुणः इत्यनेन गुणकार्यम् न भवति परन्तु अचोयनिति अचः अच् वर्णस्य परे वृद्धिः भवति अनेन सूत्रेण भू इति ऊकारः अच् वर्णः अस्ति अतः ऊ इत्यत्र गुण गुणकार्यं न भवति वृद्धिकार्यं भवति पश्चात् तत्रापि अजोयवायावः इत्यनेन सन्धिकार्यम् अपि भवति भावयति इति रूपं निष्पन्नम् छुरादिगणे इगन्धा अङ्गस्य एकः गुणः न अभवत् निजि प्रत्येपरे इत्युक्ते चुरादिगणे इगन्धं कीदृशं भवति चेत् गुणकार्यं भवति केवलं ह्रस्वस् ह्रस्व एकवर्णः अस्ति चेत् दीर्घः अस्ति चेत् गुणकार्यं न गुणकार्यम् प्रपाद्य वृद्धिः जातः वयं दृष्टवन्तः इदानीम् वृद्धिः इत्युक्ते किम् वृद्धिः इति कश्चन कार्यम् वृद्धिवर्णाः के आकारः ऐकारः औकारः वृद्धिराधेच् इति सूत्रम् वृद्धिराधेज् इति सूत्रस्य पदविच्छेदः वृद्धिः आत् ऐच् आकारः ऐकारः औकारः ऐच् एषाम् वर्णानाम् वृद्धिसंज्ञा वृद्धि प्रथमा आद प्रथमाच् प्रथमा इदम सूत्र सूत्रम स्वयं संपूर्ण वृद्धि आदच इदम संज्ञा सूत्र साय सामा, अस्ट द्वादा ईकारा प्रतिधि त वयम दृष्ट उदात्ता अनुदाता सर्व आसु अ किं ना एकारः ऐकारः एव अस्ति खलु अपरकरणम् अत्र इत्युक्ते ह्रस्वः दीर्घः प्लुदः इति अस्ति अत्र प्लुदः नास्ति ह्रस्वः नास्ति दीर्घः अत्र तकारः आण्ड् ये द्वौ अपि ऐ मीन् तकार तपरकरणं भवति एच् अत्रापि आकारस्य तपरकरणं भवति मध्ये भवति अतः आ आकारस्य ऐ औकारस्य तपरकरणं भवति अतः ओन्लि आ ए ऐ एव स्वीकरणीयम् इत्युक्ते तप तपरपकरण यत्र भवति तकारात् परः यः अथवा तकारः परः यस्य उभयमपि स्वीकरणीयं खलु आत् इत्यत्र तकारात् अनन्तरम् आगच्छति खलु आत् इत्यत्रापि आकारस्यापि तपरकरणं कृतम् ऐच्छति इत्यस्यापि इति एव उक्तं खलु समस्या सामान्यनियमः अस्ति ऐ इति द्वादशानाम् ऐकाराणां प्रतिनिधिः इति एतत् सामान्यनियमः अस्ति औ इति द्वादशानाम् औकाराणां प्रतिनिधिः इति अयं विषयः महेशसूत्राणां पठनसमये उक्तः अस्मिन् सूत्रे ऐच् तवरः अस्ति तकारात् परः सः तकारात् परः यः प्लुग्रहण न होती सूत्रे सूत्रे दीर्घ आकार उत्तर अद भगनी तर्च प्रत्याह एक ह्रस्व दीर्घ उभय आगछतिभय द्वादशवर्णानाम् इति उक्तं खलु तेषां ग्रहणम् अत्र भवति परन्तु द्वौ अपि आगच्छति ऐ ए ए औ परन्तु अत्र तपरकरणं कृतं चेत् दीर्घ आकारः ऐकारः किमर्थम् इति चेत् अत्र गुणकार्यस्य एतद्वयं गच्छति खलु एकारस्य ओकारः एकारः ओकारः अतः तत् तेषां ग्रहणम् अत्र मास्तु इति चिन्तनम् ऐच् इति वदामः चेत् ते अपि आगच्छति परन्तु तेषां बाधा करणीयं खलु कृतस्य ग्रहणं न भवति तपरतत्कालस्य इत्यनेन सूत्रेण केवलम् <खेवाँ> ऐकारस्य औकारस्य एव ग्रहणं सूत्रे दीर्घः आकारः एव उक्तः अतः तपरतत् तपरकार करणस्य आवश्यकता नास्ति अकारः अष्टादशानां प्रतिनिधिः परन्तु आकारः केवलं षण्णां प्रतिनिधिः ते सर्वे दीर्घः दीर्घाः एव केषां वृद्धिः भवति सामान्यतया इको गुणवृद्धिः इत्यनेन इकः गुणः वा वृद्धिः वा भवति यत्र स्थानि न उक्तः कः इकवर्णस्य इक इकः इति इक प्रत्याहारस्य प्रत्याहारे विद्यमानस्य वर्णस्य एव गुणकार्यं वा वृद्धिकार्यं वा भवति इति अत्र उक्तः कस्य वर्णस्य स्थाने कः वर्णः आदिष्टः भवति इति चेत् अत्र इकारस्य ईकारस्य स्थाने ऐ उकारस्य उकारस्य स्थाने औ ऋकारस्य रुकारस्य स्थाने आर् ऋकारस्य स्थाने आर् इति आदेशाः इदानीं वृद्धिः भवति इति अत्र उक्तम् इदं कथं वयं जानीमः अत्र इदं कथं वयं जानीमः अतः वयम् आगामिनि सप्ताहे पठिष्यामः तत् बहु अस्ति तर्हि कस्य वर्णस्य स्थाने कः आदेशः भवति इति कयं कथं वयं जानीमः इत्यतः आगामिनिसप्ताहे वयं पठिष्यामः इदानीं पर्यन्तं कस्यापि सन्देहः पृच्छतु सर्वेषां धन्यवादः नमस्काराश्च रामनाथन्महोदय आगतवान् वा